एव मुक्तातु सा कन्या तेन राज्ञा तमाश्रमे उवाच हसति वाक्यमिदम् सुमधुराक्षरम् कण्वस्याहम् भगवतो दुष्यन्तदुहितामता तपस्विनोद्धृतिमतो तपस्विनो धृतिमतो अस्वतन्त्रास्मि राजेन्द्र काश्यपो मे गुरुः तमेव प्रार्थय स्वार्थम् नायुक्तम् कर्तुमर्हसि दुष्यन्त उवाच ऊर्ध्वरेता महाभागे भगवाल्लोकपूजितः चलेद्धिवृत्ताद्धर्मोऽपि न चलेत् संशितव्रतः कथम् त्वम् तस्य दुहिता संभूता वरवर्णिनी संशयो मे महानत्र तन्मेच्छेत्तुमिहार्हसि शकुन्तलोवाच यथायमागमो मह्यम् यथा, यथा चेदमभूत्पुरा शृणुराजन्यथा तत्त्वम् यथास्मि दुहिता मुनेः अन्यथा सन्तमात्मानमन्यथा सत्सुभाषते सपापेनावृतो मूर्खस्तेन आत्मापहारकः ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत् ऊर्ध्वरेता यथासि शकुन्तला पुत्री त्वत्तः कथम् जाताः सत्यम् मेऽ्रूहि काश्यप तस्मै प्रोवाच भगवान् यथा तच्छृणुपार्थिव कण्वौ उवाच तप्यमानः किल विश्वामित्रो महत्तप सुभृशम् तापयामास शक्रम् सुरगणेश्वरम् तपसा दीप्तवीर्योऽयम् स्थानान् माम् च्यावयेदिति भीतः पुरन्दरस्तस्मान्मेनकामिदमब्रवीत् गुणैरप्सरसाम् दिव्यैर्मेनके त्वम् विशिष्यसे श्रेयो मे कुरु कल्याणि यत्त्वाम् वक्ष्यामि तत् शृणु विश्वामित्रो महातपाः तप्यमानस्तपो घोरम् मम कम्पयते मनः मेनके तव भारोऽयम् विश्वामित्रः सुमध्यमे शंसितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते समाम् न च्यावयेत्स्थानात्तम् वै गत्वा प्रलोभय चरतस्य तपो विघ्नम् कुरु मे विघ्नमुत्तमम् रूपयौवनमाधुर्यचेष्टितस्मितभाषणैः लोभयित्वा वरारोहे तपसस्तम् निवर्तय मेनकोवाच महातेजाः स भगवाँस्तथैव च महातपाः कोपनश्च तथा ह्येनम् जानाति भगवानपि तेजसस्तपसश्चैव कोपस्य च महात्मनः त्वमप्युद्विजसेयस्य नोद्विजेयमहम् कथम् महाभागम् महा वसिष्ठम् यः पुत्रैरिष्टैर्व्ययोजयत् क्षत्रजातश्च यः पूर्वमभवद्ब्राह्मणो बलात् शौचाथ यो नदी चक्रे दुर्गमा बहुल यातमा लोके कौशिकीति विदुर्जना बभार यत्रास्य पुरा काले दुर्गे महात्मन दारान्मतंगो धर्माज्याधता गतीत काले दुर्भिक्षे अभ्येत्य पुनराश्रम्वा मुनिः पारोति नद्या वै नामचक्रे तदा प्रभुः मतङ्गम् याजयाञ्चक्रे यत्र प्रीतमनाः स्वयम् त्वम् च सोमम् भयाद्यस्य गतः सुरेश्वर चकारान्यम् च लोकम् वै क्रुद्धो नक्षत्रसम्पदा चकारय गुरुशापहतस्यापि त्रिशङ्कोः ददौ ब्रह्मर्षिशापम् राजर्षिः कथम् मोक्ष्यति कौशिक अवमत्य तदा देवैर्यज्ञाङ्गम् तद्विनाशितम् अन्यानि च महातेजायज्ञाङ्गान्यसृजत्प्रभुः निनाय च तदा स्वर्गम् त्रिशङ्कुम् समःतपाः एतानि यस्य कर्माणि तस्याहम् भृशमुद्विजे यथासो न दहेत् क्रुद्धस्तथा क्षापय विभो तेजसा निर्दहेल्लोकान् कम्पयेद् धरणीम् पदा सङ्क्षिपेच्च महामेरुम् तूर्णमावर्तयेद्दिशः तादृशम् तपसा युक्तम् प्रदीप्तमिव पावकम् कथमस्मत् विधानारीजितेन्द्रियमभिस्पृशेत् हुताशनमुखम् दीप्तम् सूर्यचन्द्राक्षितारकम् कालजिह्ंसुरः श्रेष्ठ कथमस्मद्विधाः स्पृशेत् यमश्च सोमश्च महर्षयश्च साध्या विश्वे वालखिल्याश्च सर्वे एतेऽपि यस्योद्विजन्ते प्रभावात् तस्मात् कस्मान्मादृशी नोद्विजेत् त्वयैव मुक्ता च कथम् समीपम् ऋषेर्न गच्छेयमहम् सुरेन्द्र रक्षाम् तुमे चिन्तयदेव राजयथा त्वदर्थम् रक्षिताहं चरेयम् कामं तुमे मारुतस्तत्र वासः प्रकीडिताया विवृणोतु देव भवेच्च मे मन्मथस्तत्र कार्ये सहायभूतस्तु तव प्रसादात् वनाच्च वायुः सुरभिः प्रवायात् तस्मिन्काले तम् ऋषिम् लोभयन्त्याः तथेत चैवतस ययो साश्रमं तथे विस्मस्तो यौ साम कौशिक्रीमहाभार आदिपर्वि सर्वि शकुंतोपाख्यासप्तमोध्याय